पाशम् धनुर्मः चक्रम् विविधान्यायुधानि च कुण्डलाभ्याम् सुपूर्णाभ्याम् कर्णाभ्याम् च विभूषिता चन्द्रविस्पर्धिना देवी मुखेन त्वम् विराजसे मुकुटेन विचित्रेण कीटबन्धेन शोभिना भुजङ्गा श्रोणिसूत्रेण राजता विभ्राजसे चाबद्धेन भोगेने वेहमन्दरः ध्वजेन शिकि पिच्चा न मुच्छ्रितेन विराजसे कौमारं त्वया तेन त्वम् देवी तिदशै पूज्यसेऽपि च त्रैलोक्यरक्षणार्थायाम् महिषा प्रसन्नामे सुरश्रेष्ठे दयाम् कुरुषि वा भव जया त्वम् विजया चैव सङ्ग्रामे च जयप्रदा ममापि विजयम् देहि वरदा त्वम् च साम्प्रतम् विन्ध्ये चैव श्रेष्ठे तव स्थानम् हि शाश्वतम् कालिकालि महाकालि खड्ग खड्गाङ्गधारिणि कृतानि यात्रा वरदा कामचारिणि भारावतारेये चत्वाम् संस्मरिष्यन्ति मानवाः प्रणवन्ति जये हि प्रभाते तु नराभुवि न तेषाम् पुत्रतो धनतोऽपि वा दुर्गे तत्त्वम् दुर्गास्मृता जनैः कान्तारेष्वसन्नानाम् मग्नानाम् च महार्णवे